नारदपुराणम् उत्तरार्थम् अध्यायम् 66 अथ गङ्गाद्वारमाहात्म्यम् प्रारभ्यते मोहिन्युवाच कुरुक्षेत्रस्य माहात्म्यं श्रुतं पापापहम् महत् त्वत्तो द्विजवरश्रेष्ठ सर्वसिद्धिप्रदम् नृणाम् गङ्गाद्वारेदि यत्यादं तीर्थं पुण्या वहं गुरो तत्समाख्याहि भद्रं ते श्रोतुं वाञ्चास्ति मे हृदि वसुरुवाच शृणु भद्रे प्रवक्ष्यामि माहात्म्यं पापनाशनं गङ्गाद्वारस्य ते पुण्यं शृण्वतां पठदां शुभम् यत्र भूमि मनुप्राप्ता भूमिमनुप्राप्ता भगीरथरथानुगा श्रीगङ्गालकनन्दाख्या न गान्धित्वा सहस्रशः यत्रा यजदयज्ञेशं पुरा दक्षप्रजापतिः तत्क्षेत्रं पुण्यदं नृणां सर्वपादकनाशनम् यस्मिन् यज्ञे समाहूदा देवा इन्द्रपुरोगमः स्वै स्वैर्गणैः समायादा यज्ञभागजिघृक्षया तत्र देवर्षय प्राप्तास्तथा ब्रह्मर्षयो मलाः शिष्यप्रशिष्यै सखितास्तथा राजर्षय शुभे सर्वे निमन्त्रितास्तेन ब्रह्मपुत्रेण धीमदा गन्धर्वाप्सरसो यक्षासिद्धविद्याधरो रगाः सम्प्राप्ता यज्ञसदनमृदे सर्वं पिनाकिनं तदस्तु गच्छतां तेषां सप्रियाणां विमानीनां दक्ष यत्नोत्सवं प्रीत्यान्योन्यम् वर्णयदां सदि श्रुत्वा सोत्कामः देवं प्रार्थयामास भामिनी तत्रुत्वा भगवाना नश्रेयो श्रेयो गमनं तदः अध देवमनाधृत्य गौरवाद गौरवात् जगामयिकाकिनी भद्रे द्रष्टुं पितृमुखोत्सवम् ततः स तत्र सम्प्राप्ता न सभाजिता प्राणांस्तत्याज तन्वङ्गी तज्जादम् क्षेत्रमुत्तमं तस्मिं तीर्थे तु ये स्नात्वा तर्पयन्ति सुरान् पितॄन् ते स्युर्देव्या प्रियतमा भोगमोक्षैकभागिनः येन्येपि तत्र स्वान्प्राणान् त्यजन्त्यनशनादिभिः तेऽपि साक्षात् शिवं प्राप्य नाप्नु पुनर्जनिम् अथ तन्नारदा श्रुत्वा भगवान् नीललोकितः मरणं स्वप्रिया वीरभद्रं विनिर्ममे स प्रमधैर्युक्तस्तं यज्ञं समनाशयद पुनर्विधे प्रार्थनया मीड्वांसद्य प्रसादितः सम्दधे च पुनर्यज्ञं विकृतं प्रकृतिस्थितं ततस्तत्तीर्थमतुलं सर्वपादकनाशनं जातं यत्राप्लुदसो मो यक्ष्मग्रहादभूद तत्र यो विधिवस्नात्वा यं यं कामं विचिन्तयेद् तं ताम समाप्नोदिविधिजे नात्रकार्या विचारणा यत्र यज्ञेश्वरः साक्षाद्भगवान्विष्णुरव्ययः स्तुतो दक्षेण देवैश्च ततीर्थं हरिसं नीतम् तत्र यो विधिवन्मर्त्य स्नायाद्धरिपदे सदि स विष्णोर्वल्लभो भूयाद् भुक्ति मुक्तयकभाजनम् त्रिगगं नाम विश्रुतं यत्र त्रिपथका साक्षादृश्यदेशकलैर्जनैः तत्र स्नात्वा दसन्तर्प्य देवर्षि पितृमानवान् सम्यक् श्रद्धा युधो मर्त्यो मोददे दिवि देववद तत्र यस्त्यजदि प्राणान् प्रवाहे पदितः सति स धाम देवै सम्यक् सभाजिदः तदकनकले तीर्थे दक्षिणीं दिशमाश्रिते त्रिरात्रो पोषिदस्नात्वामुच्यते सर्वगिल्बिषैः अध यास्तत्र गां दद्याद्बाह्ये वेदपारगे वेदभारगे स कदाचिह्नपश्ये तु देवि वैतरणीं यमम् अत्र जत्तं हुदं तत्तं दत्तमानं त्यमश्नुते अत्रैव जुहुतीर्थं च यत्र वै जहृना पुरा राजर्षिणा निपीदाभूद् गण्डूषीकृत्य सा नदी प्रसादितेन सा मुक्ता कर्णाद्विनिर्गता तत्र स्नात्वा महाभागे यो नरश्रद्धयान्निविदः सोपभासमभ्यर्च्येद्बाह्यणं वेदपारकम् भोजयेत् परमान्नेन स्वर्गे कल्पं पश्येत् सदु अथ पश्चाद्दिशि गतं कोटितीर्थसुमध्य यत्र कोटिगुणं पुण्यं भवेत् कोडीश्य दर्शनाद ओश्यैकां रजनीं तत्र पुण्डरीकमवाप्नुयाद तदैवोत्तरदिग्भागे सप्त गङ्गे दिवि श्रुतं तीर्थं परमकं देवी सर्वपातकनाशनं यत्राश्रमाश्च पुण्या वै तेषु सर्वेषु तु पृथक् स्नात्वा सन्तर्प्य मर्त्यऋषिलोकं सनातनं भगीरथेन वैराज्ञा यदा नीतासुराभगां तदा सा प्रीदये तेषां सप्त धारा गदा भवद सप्त गं गं तदस्तीर्थं भुवि स आवर्तं ततः प्राप्य सन्तर्प्यामरपूर्वकान् स्रात्वा देवेन्द्रभवने मोददे युगमेव च तदोभद्रे समासाद्य कपिलाह्रदमुत्तमं धेनुं दत्त्वा द्विजाग्र्याय गोसहस्रफलं लभेद अत्रैव नागराजस्य तीर्थं परमपावनम् अत्राभिषेकं यः सोभयं सर्पदो लभेद ततो ललितकं प्राप्य शन्तनोस्तीर्थमुत्तमं स्नात्वा सन्तर्प्य विधिवत् सुरादीन्नभदे गतिं यत्र शन्तनुनां लब्धा गङ्गा मानुष्यमागदा तत्रैव तत्यजे देहं वसून् सूत्वानुवत्सरं तद्देहो न्यपतत्तत्र तत्राभू दक्षजन्म च तत्र यस्नादिमनुजो भक्षये च तां स न भीमस्थलं तदप्राप्य यस्नायात् सुकृतीनरः भोगान् भुक्त्वेह देहान्ते दे स्वर्गतिं समवाप्नुयाद यदानुद्देशतो देवितीर्थानि गदितानि ते दे। अन्यानि वै महाभागे सन्ति तत्र लसहस्रशः योऽस्मिन् क्षेत्रे नरस्नाया कुम्भके जगे जगेरवौ सदु स्याद्वाक्पदि साक्षात्प्रभाकर इवापरः अथ यादे प्रयागादिपुण्यतीर्थे प्रथूके अथ यो वारुणे योगे महावारुणके तथा मस्ता महावारुणे च स्नाया तत्र विधानतः सम्पूज्य ब्राह्मणन् भक्त्या स लभेद्ब्रह्मणः पदम् सङ्क्रान्तवाप्यमायं वा व्यधिपादे युगाधिके पुण्येऽघनि तधान्यद्वै यत्किञ्चिद्दानमाचरेद तत्तु कोटिगुणं भूयात्सत्य मे दन्मयोदितं गङ्गाद्वारं स्मरेद्यो वै समाप्नोति स्मरन्नं ते यथा हरिं यं यं देवं हरिद्वारे पूजयेत् प्रयतो नरः स स देव सुप्रसन्नपूरयेत् तन्मनोरथान् एदेव तपःस्थानमेतदेव जपस्थलं यददेव हुदस्थानं यत्र गङ्गाभुवं गदात् यस्तत्र नियतो मर्त्यो गङ्गानामसहस्रकं त्रिकालं पठतिस्नात्वा स्नात्वा सोक्षयां सन्ततिं लभेद् गङ्गाद्वारे पुराणं तु शृणु याद्यश्च भक्तिदः नियमे न महाभागे स यादिपदमव्ययम् हरिद्वारस्य माहात्म्यं यशृणोदि नरोत्तमः पठेद्वा भक्तिसंयुक्तसोऽपि स्नानफलं लभेद देवि तिष्ठति यद्गेहे माहात्म्यं लिखितं द्विधं तद्गृहे सर्पचौराग्निग्रहराजभयं नहि वर्धाते सम्पदः सर्वविष्णुदेवप्रसादतः यदि श्रीबृहन्नारदीयपुराणे हरिद्वार हरिद्वाम्यम नाम षट्टध्याय गंगद्द्वार हरिद्वारत्म्यम ओम।